श्रीमद्भागवत्महापुराणं सप्तं स्कन्ध चतुर्थोऽध्यायः नारदुवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकशः न वर्तन्तगतोद्वेगां मणिरे चासुरम्भतं तस्य दैत्यपते पुत्राश्चत्वार परमाद्भुताः प्रह्लादोन्भुन्महांस्तेषां गुणैर्महदुपाशकः ब्रह्मण्यशीलसम्पन्नसत्यसन्धो जितेन्द्रियः आत्मवः सर्वभूतानाम् एकप्रियसृहृत्तमः दासवसन्नतार्याङ्घ्रि पितृवद्य न वत्सलः भ्रातृवसदृशे स्निग्धो गुरुष्वीश्वरभावनः विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः नोद्विग्नचित्तो व्यासन् व्यसनेषु निःस्पृह सुतेषु दुष्टेषु गुणेषु वस्तुते दातेन्द्रियप्राणशरीरधी सदा प्रशान्तकामो रहिता सुरोसुरः यस्मिन् महद्गुणाराजन् गृह्यन्ते कविभिर्मुहुः न ते अधुनापि धीयन्ते यथा साधुगाथा सदसे साधु गाथा सदसे रिपु प्रतिमानं रिपुवोऽपि सुरालपं प्रतिमानं प्रकुर्वन्ति कुमुताण्डे भवादशाः गुणैरलमसङ्ख्येयैर्महात्म्यं तस्य सिच्यते वासुदेवे भगवति यस्य नैसर्गिकीरतिः नस्तक्रीडनको बालो जडवत्तन्मन्मनस्तया कृष्णा गृहगृहीतात्मानः वेद जगदीदृशम् आसीनपर्यटन्नस्नन् शयान् प्रपिम्बन् पृंब्रुवन् नानुसन्धत्तते तानि गोविन्दपरिरम्भितः क्वचित् द्रुदति वैकुण्ठचिन्तासं बलचेतनः क्वचिद्धसति तच्चिन्ताह्राद उद्घायति क्वचित् न ददति क्वचिद् उत्कण्ठो विलज्जो नृत्यति क्वचित् क्वचित् तद्भावनायुक्तं तन्मयो नूचकारः क्वचिद् पुलं पुलकस्थूलीमास्ते संस्पर्शनिवृतः अस्पन्दं प्रणयानन्दसलिलामिलिते क्षणः स उत्तमश्लोकपदारविन्दयो निषेवया किञ्चन सङ्गलब्धया तन्मन्परां निमृतिमात्मनो मुहुर् दुस्सङ्गिनी दुःसङ्गति नान्यमनशमं व्यधात् तस्मिन् महाभागवते महाभागे महात्मने हिरण्यकचिपूराजन्नकरोदघमात्मजे यधिष्ठिर उवाच देवरस एतदिक्षामो मो वेदितुं तव सुव्रत यदात्मजाय शुद्धाय पिता दासाधवे जगम् पुत्रान् विप्रतिकूलान् स्वान् पितरपुत्रभलाः उपालम्भन्ते शिक्षार्थं नैवाघम् अपरो यथा किमुतानुवशान् साधुं तादृशान् गुरुदेवतान् एतत् कौतूहलं ब्रह्मण्यस्माकं विधुमप्रभो चतुः पुत्रायी अद्वेषो वर्णनाय प्रयोजितः इति श्रीमद्भागवते महापुराणे पारमंसां सीतायां सप्तं स्कन्धे प्रह्लादचरिते चतुर्थोऽध्यायः